श्रीगुरुभ्यो नमः हरिः ओ नारायणसमारम्भाम् व्यासशङ्करमध्यमाम् अस्मदाचार्यपर्यन्ताम् वन्दे गुरुपरम्पराम् श्रुतिस्मृतिपुराणानाम् आलयम् करुणालयम् नमामि भगवत्पादशङ्करम् लोकशङ्करम् शङ्करम् शंकराचार्यं केशवं बादरायणम् सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनःपुनः पुनः आत्मबोध उपनिषत् श्रीमन्नारायणाकारम् अष्टाक्षरमहाशयम् स्वमात्रानुभवात्सिद्धम् आत्मबोधम् भजे ओम् वाङ्मे मनसीति शान्तिः ओम् प्रत्यगानन्दम् ब्रह्मपुरुषम् प्रणवस्वरूपम् अकार उकारमकार इतित्यक्षरम् प्रणवम् तदेतदोमिति यम् मुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् ओम् नमो नारायणाय शङ्खचक्रगदाधराय तस्मात् ॐ नमो नारायणेति मन्त्रोपासको वैकुण्ठभवनम् गमिष्यति अध यदिदम् ब्रह्मपुरम् पुण्डरीकम् तस्मात् दीपवत् दीपवत्प्रकाशम् ब्रह्मण्यो देवकी पुत्रो ब्रह्मण्यो मधुसूदनः ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्युतः सर्वभूतस्तमेकम् नारायणम् कारणपुरुषम् कारणं परब्रह्मम् शोकमोहविनिर्मुक्तो विष्णुम् ध्याय न सीदति दयिताद्वतम् अभयम् भवति मृत्योः स मृत्युम् आप्नोति य इह नानेव पश्यति हृत्पद्ममत्स्ये सर्वं यत्तत्प्रज्ञाने प्रतिष्ठितम् प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठा ब्रह्म स एतेन प्रज्ञेनात्मना अस्माल्लोकात् उत्क्रम्यामुस्मिन् स्वर्गे लोके सर्वान् कामान् आप्त्वामृतः समभवदमृतः समभवत् यत्र ज्योतिरजस्रम् यस्मिन् लोके अभ्यर्हितम् तस्मिन्माम् देहि स्वमानम् मृते लोके अक्षते अच्युते लोके अक्षते अमृत्वम् च गच्छति ओम् नमः प्रगणितनिजमायोऽहम् निस्तुलदृशिरूपवस्तुमात्रोऽहम् अस्तमिताहन्तोऽहम् प्रगळितजगदीश जीवभेदोऽहम् प्रत्यगभिन्नपरोहम् विध्वस्त अशेषविधिनिषेधोऽहम् समुत् अस्थाश्रमितोऽहम् प्रविततसुखपूर्णसंविदेवाहम् साक्ष्यमहमनपेक्षोऽहम् निजमहिम्नि संस्थितोऽहम् अचलोऽहम् अजरोऽहम् अव्ययोऽहम् पक्षविपक्ष आदिभेदविदुरोऽहम् अवबोधैकरसोऽहम् मोक्षानन्दैकसिन्धुरेवाहम् सूक्ष्मोऽहम् अक्षरोऽहम् विगळितगुणजाल केवलात्माहम् निस्त्रैगुण्यपदोऽहम् कुक्षिस्तानेकलोककलनोऽहम् कूटस्थचेतनोऽहम् निष्क्रियधामाहम् अप्रतर्क्योऽहम् एकोऽहम् अविकलोऽहम् निर्मलनिर्वाणमूर्तिरेवाहम् निरवयोऽहम् अजोऽहम् केवलसन्मात्रसारभूतोऽहम् निरवधिनिजबोधोऽहम् शुभतरभावोऽहम् अप्रभेद्योऽहम् विभुरहम् अनवद्योऽहम् निरवतिनिःसीमतत्वमात्रोऽहम् वेद्योऽहम् अगमास्तैराराध्योऽहम् सकलभुवनहृद्योहम् परमानन्दघनोऽहम् परमानन्दैकपूमरूपोऽहम् शुद्धोऽहम् अद्वयोऽहम् सन्ततभावोऽहम् आदिशून्योऽहम् शमितान्तत्रितयोऽहम् बद्धो मुक्तोऽहम् अद्भुतात्माहम् शुद्धोऽहम् अन्तरोऽहम् शाश्वतविज्ञानसमरसात्माहम् शोधितपरतत्त्वोऽहम् बोधानन्दैकमूर्तिरेव अहम् विवेकयुक्तिबुद्ध्याहम् जानाम्यात्मानम् अद्वयम् तथापि बन्धमोक्षादिव्यवहारः प्रतियते। निवृत्तोऽपि प्रपञ्चो मे सर्वदा सर्पादौ रज्जुसत्येव ब्रह्मसत्येव केवलम् प्रपञ्चाधाररूपेण वर्तते जगन्नहि यथेक्षुरससंव्याप्ता शर्करा वर्तते तथा अद्वयब्रह्मरूपेण व्याप्तोऽहम् वै जगत्त्रयम् ब्रह्मादिकीटपर्यन्ताः प्राणिनो मयि कल्पिताः बुद्बुदादिविकारान्तः तरङ्गसागरे यथा तरङ्गस्थम् द्रवम् सिन्धुर्न वाञ्छति यथा तथा विषयानन्दवाञ्छा मे मा दारिद्र्याशा यथा नास्ति सम्पन्नस्य तथा मम ब्रह्मानन्दे निगनिमग्नस्य विषयाशा विषम् दृष्ट्वा अमृतम् दृष्ट्वा विषम् त्यजति बुद्धिमान् आत्मानपि दृष्टवाहं अनात्मानम् चजाम्यहं। घटाव भानुर्घटनाशेन नश्यति देहावभासकः साक्षी देहनाशेन नश्यति न मे बन्धो न मे मुक्तिर्न मे शास्त्रम् न गुरुः माया मात्रा विकासत्वान्मायातीतो अहमद्वयः प्राणाश्चलन्तु तद्धर्मैः कामैर्वाहन्यतः मनः आनन्दबुद्धिपूर्णस्य मम दुःखम् कथम् भवेत् मञ्जसा वेद्मि क्वाप्यज्ञानम् पलायितम् कर्तृत्वम् अद्य मे नष्टम् कर्तव्यम् वापि ब्रह्मण्यम् कुलगोत्रे च नाम सौन्दर्यजातयः स्थूलदेहगता एते स्थूलाद्भिन्नस्य मेन हि क्षुत्पिपासान्ध्यबाधिर्य कामक्रोधदयो अखिलाः लिङ्गदेहगता एते ह्यलिङ्गस्य न सन्ति हि जडत्वप्रियमोदत्वधर्माः कारणदेहगाः न सन्ति मम नित्यस्य निर्विकारस्वरूपिणः उलूकस्य यथा भानुः अन्धकारः प्रतीयते स्वप्रकाशे परानन्दे तमो मूढस्य जायते चक्षुर्दृष्टिनिरोधे अभ्रैः सूर्यो नास्तीति मन्यते तथा ज्ञानवृतो देहि ब्रह्मणास्तीति मन्यते यथामृतम् विषाद्भिन्नम् विषदोषैर्न लिप्यते न स्पृशामि जडाद्भिन्नो जडदोषान्प्रकाशतः स्वल्पापि दीपकणिका बहुलम् नाशयेत्तमः स्वल्पोऽपि बोधो निबिडे बहुलम् नाशयेत्तमः कालत्रये यथा सर्पो रज्जौ नास्ति तथा मयि अहङ्कारादिदेहान्त जगन्नास्त्यहम् अद्वयः चिद्रूपत्वान्न मे जाड्यम् सत्यत्वाननृतम् मम आनन्द्वत्वान्न मे दुःखम् अज्ञानाद्भाति सच्चवत् आत्मप्रबोधोपनिषत् इदम् मुहूर्तम् उपासित्वा न पुनरावर्तते न स पुनरावर्तत इत्युपनिषत् ओम् वाङ्मे मनसीति शान्तिः इति आत्मबोधोपनिषत्सम्पूर्णा ॐ शान्तिः शान्तिः शान्तिः ॐ तत्सब्रह्मार्पणमस्तु मङ्गलम् कोसलेन्द्राय महनीयगुणात्मने चक्रवर्तितनुजाय सार्वभौमाय मङ्गलम्